स्तु भूम्या राज्यम् सपदि भगदत्ते चतनये गजम् चैकम् दत्वा रजिगयित नागान् निजपुरम् कलेनाबद्धानाम् स्वगतवनसं षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिम् च